नमस्तेभ्यः अस्माकं योगनिष्ठजीवनम् इति वर्गे भवतां सर्वेषां स्वागतं करपत्रस्य पठनात् प्राक् किञ्चित् पश्यामः अत्र परमपुरुषः समदर्शि इति वयं वदामः किमर्थं परमपुरुषः समदर्शि इति वदामः इति चेत् तत्र एकः श्लोकः अस्ति उपनिषदि बृहदारण्यकोपनिषदि समःप्लुषिना समह मशकेन समह नागेन समह एभिः त्रिभिः लोकैः समह क्लुषिना समह मशकेन समह नागेन समह एभिः त्रिभिः लोकैः तर्हि अत्र श्लोकस्य कः अर्थः इति चेत् समः इति पदस्य अर्थः कः इति वयं जानीमः समः इत्युक्ते समानदृष्टिः सम समानव्यवहारः इति वक्तुं शक्नुमः तर्हि परमात्मा यः अस्ति तस्य दृष्टिः समानः दृष्टिः समाना अस्ति प्लुसिना इत्युक्ते प्लुषि प्लुषिन् प्लुषिन् इति प्रातिपदिकं प्लुषिना इति तृतीया विभक्तिः प्लुसि इति अस्ति तर्हि पृषि इत्युक्ते पिपिलिका पिपिलिका वल्मीकः कश्चन कीटविशेषः वैट् एण्ट् इति वक्तुं शक्नुमः तर्हि परमा परमात्मनः दृष्टिः पिपिलिकायाः विषये अपि समानः विषये अपि दृष्टिः समाना अस्ति मशकः मशकः इत्युक्ते मस्कितो मस मशकस्य विषये अपि समाना अस्ति अनन्तरं नागः नागः इत्युक्ते ऐरावत ऐरावतः इति वक्तुं शक्नुमः अथवा सर्पः इत्यपि वक्तुं शक्नुमः तस्य दृष्टिः सर्पः सर्पस्य विषये अपि तस्य दृष्टिः समाना अस्ति अथवा त्रिभुवनं भवतु त्रिभुवनस्य विषये अपि तस्य दृष्टिः समाना अस्ति त्रिभुवनम् इत्युक्ते परिदृश्यमानं जगत् अपि च तत्र मानसिक मानसिकजगत् अनन्तरं कारण कारणजगत् तर्हि यत्किमपि भवतु तत्र त्रिभुवनस्य विषये अपि तस्य दृष्टिः समाना अस्ति इत्युक्ते तत्र भेदभावः नास्ति परमात्मा परमात्मनः चिन्तने परमात्मनः दृष्टौ भेदभावः नास्ति इत्युक्ते गौरवभावः अथवा युनो कश्चन कश्चन तस्य कश्चन कश्चन महान् अस्ति अपि च अन्यः नीचः अस्ति इति तादृशविषयः नास्ति इत्युक्ते सर्वे सर्वे परमात्मनः एव सम्भूतः खलु सर्वे परमात्मनः एव सम्भूताः अतः तस्य दृष्ट्या वयं सर्वे अपि तस्य शिशवः अथवा तस्य सन्तानः वयं सन्तानाः वयं स्मः पुत्राः स्मः पुत्र्यः स्मः अतः तत्र कथं वा तस्य दृष्टौ भेदभावः भवितुमर्हति मनुष्येषु तादृशव्यवहारः अस्ति मनुष्य मनुष्याणां दृष्टौ भेदभावः अस्ति इत्युक्ते जातिभेदः अथवा धनं धनम् आधारीकृत्य भेदः अथवा कुत्र वयं वसामः तत्र स्थान स्थानमाधारीकृत्य अथवा भोजनं भोजनम् अथवा शरीरस्य यः वर्णः अस्ति तस् तं वर्णमादाकृ आधारीकृत्य भेदः इति तादृशभेदभावः जगति दृश्यते मनुष्याणां मध्ये एतादृशभेदभावः दृश्यते गौरवभावः गौरवहीनता एतादृश सम्मानः सम्मानः अथवा अपमानः इति एवं रीत्या तत्र कश्चन श्रेष्ठः अस्ति कश्चन हीनः अस्ति इत्येवं रीत्या अत्र अस्माक जगति भेदभावः दृश्यते परन्तु यः परमात्मा अस्ति तस्य दृष्टौ एतादृशभेदभावः नास्ति सर्वे, सर्वे जनाः तेभ्यः एव सम्भूताः तस्मात् एव सम्भूतः इति कृत्वा तर्हि तस्य दृष्टौ तु वयं सर्वे अपि समानाः स्मः तत्र गजः वा गजः यः महान् गजः वा अथवा यः तत्र लघुः लघु लघ्वीपिप्लिका वा Uh, तयोः विषये तस्य दृष्टिः समानः अस्ति सर्वे तस्य तस्य कृते सर्वे अपि uh, प्रियकराः एव सन्ति तर्हि uh, तस्य इत्युक्ते जनाः वदन्ति परमात्मा पक्षपातं करोति uh, कश्चन पुरुषस्य कस्यचित् पुरुषस्य कृते तस्य दृष्टिः भिन्ना अस्ति तस्य कृते सर्वं ददाति परन्तु मम कृते किमपि न ददाति एवं जनाः परमात्मनः उपरि पक्षपातस्य आरोपं करो कुर्वन्ति परन्तु वस्तुतः परमात्मा तथा नास्ति त सः कदापि पक्षपातं न करोति यः कोऽपि भवतु तत्र लघुवस् लघुवस्तु वा भवतु महान् महत् वा भवतु तर्हि तृणं भवतु अथवा गजः भवतु अथवा पर्वतः वा भवतु यत्किमपि भवतु अस्मिन् जगति सर्वं तस्य कृते प्रिय मशकः वा भवतु अथवा पिपीलिका वा भवतु सर्वेषां कृते तस्य आकर्षणं तस्य प्रेमभावः समानः अस्ति तस्य तस्य दृष्ट्या सर्वेषां समानप्रधानता वर्तते इत्युक्ते एक कश्चन उपरि अस्ति कश्चन अधः अस्ति इति किमपि नास्ति तस्य तस्य दृष्टौ समानभावः अस्ति तर्हि किमर्थम् अस्य विषये चिन्तनं कुर्मः इति चेत् परमात्मा यः अस्ति सः समदर्शी अस्ति समदर्शी अस्ति तस्य अस्माकं प्रत्येकं जीवस्य कृते तस्य वैष्टिकसम्पर्कः अपि अस्ति इण्डिविजुवल् रिलेशन्शिप् अस्ति सामूहिकसम्बन्धः अपि अस्ति परमात्मनः तर्हि पर यदा तत्र वैष्टिकसम्पर्कः यः अस्ति परमात्मनः सः सम्पर्कः अस्ति ओतयोगः ओतयोगः परमात्मनः यः सामूह सामूहिकसम्पर्कः अस्ति परिदृश्यमान जगता सह तादृशसम्पर्कः अस्ति प्रोतयोगः तर्हि ओतयोगः प्रोतयोगः इति द्वाभ्यां योगाभ्यां परमात्मा सर्वेषां निग्रहणं करोति सर्वेषाम् ईक्षणं करोति सर्वेषाम् दर्शनं करोति सर्वे तस्य पुरतः एव सन्ति इति कृत्वा वयं किमपि गुप्तरूपेण किमपि कर्तुं न शक्नुमः गूढरूपेण अहं किमपि करोमि केवलं मम मा मनसि एव अस्ति अहम् अस्य विषये कोपि न जानाति केवलमहं जानामि इति नास्ति यत्किमपि वयं कुर्मः सः तु जानाति एव तस्मात् किमपि गुप्तरूपेण न भवितुम् अर्हति वयं इदं जगत्तु परमात्मनः चित्त चित्ते एव अस्ति अतः कथं गुप्तरूपेण भवितुम् अर्हति अतः यत्किमपि व कुर्मः सर्वदा चिन्तनीयं यद् यद् मया इदानीं क्रियते तत्तु परमात्मना दृश्यते एव अतः अत्र अहं गुप्तरूपेण करोमि इति कदापि न भवितुमर्हति तर्हि अत्र मानवसाधना इति यदा वयं वदामः तर्हि मानवसाधना नाम गमनम् अस्ति गतिः अस्ति कुतः इति चेत् अपूर्णतातः पूर्णतापर्यन्तं गमनम् एव अत्र साधना साधनायां यदा एकत्र उपविश्य वयं नेत्रं निमील्य उपविशामः तदानीम् अन्तः अन्तः यदा वयं गच्छामः तदानीम् अपूर्णतातः पूर्णतापर्यन्तं वयं गच्छामः अत्र अस्मिन् जगति सर्वे तु तु केन्द्रे अस्ति परमात्मा तु केन्द्रे अस्ति सर्वे तु परमात्मनः पार्श्वे ते तरितः सर्वे भ्रमन्ति सर्वे भ्रमन्ति यदा वयं मानवधर्मस्य पालनं कुर्मः तदानीं तत्र तस्य समीपे गच्छामः शनैः शनैः समीपे गच्छामः यदा मानवधर्मस्य पालनं न कुर्मः तदानीं तस्मात् वयं दूरं गच्छामः अतः अस्माकं सर्वेषामपि अस्मिन् जगति गतिः वर्तते वयं समीपे परमात्मनः समीपे गच्छामः अथवा तस्मात् दूरं गच्छामः परन्तु गतिः तु अस्ति एव सर्वदा अस्माकं गतिः एव अस्ति तस्य दृष्टिः तु सर्वेषाम् उपरि अस्ति तस्य दृष्टिः सर्वेषां सर्वे किं किं सर्वे किं कुर्वन्ति तदपि से जानाति यः कोऽपि महान् विद्वान् वा भवतु या कश्चन कश्चन मूर्खः भवतु या कोऽपि वा भवतु यः कोऽपि दरिद्रः वा भवतु कोऽपि लघु लघु भवतु कोऽपि विशालः वा भवतु अथवा यत्किमपि अस्माकं शारीरिक आकारः वा भवतु परन्तु तस्य दर्शनं तस्य दृष्टिः सर्वस्य उपरि तु अस्ति एव यतोहि अत्र अस्माकं शारी अस्माकं शरीरं तु पाञ्चभौतिकं शरीरम् अस्ति कदा इति कोऽपि वक्तुं शक्नोति परन्तु अस्माकं यः आत्मा अस्ति सः आत्मा तु सर्वदा अस्ति सर्वदा अस्ति सः आत्मा तु परमात्मनः अंशः अस्ति तर्हि जीवात्मा तु परमात्मनः भिन्नः नास्ति अतः तत्र यदा आत्मा तु परमात्मनः अंशः अस्ति कथं वा तस्य दृष्टिः भिन्ना भवितुम् अर्हति कथं वा तस्य दृष्टौ भेदभावः भवितुम् अर्हति तर्हि अनेन किम् अस्माभिः अवगम्यते इति चेत् यदा अस्माकं लक्ष्यं परमात्मनः प्राप्तिः इति यदा वयं वदामः तदानीम् अस्माकं दृष्टिः अपि समाना भवेत् अस्माकं दृष्टौ अपि जातिव्यवस्था अथवा भेदभावः कदापि न भवति कदापि न भवेत् एतादृशसमदर्शित्वं कथं वयं प्राप्तुं शक्नुमः समान वयमपि समदर्शिनः भवितुं शक्नुमः कथं शक्नुमः केवलं पुस्तकस्य पठनेन समदर्शनं समदर्शनं समदर्शनम् इति दशवारं पठामः अथवा शतवारम् अथवा शतवारं पठामः अथवा सहस्रवारं पठामः तेन समदर्श दर्शित्वं प्राप्तुं शक्नुमः वा इति चेत् कदापि न भवति समदर्शनं कदा भवति इति चेत् यदा तत्र कोऽपि उपविश्य साधनां करोति प्रतिदिनं साधनां करोति द्विवारं साधनां करोति तदानीमेव तस्य अग्रगतिः भवति मनः मनः वर्धते तदानीं समदर्शनम् आटोमेटिक्लि आयाति तत्र स्वाभाविकः भवति समदर्शनं तत्र प्रयासस्य आवश्यकता नास्ति यदा कोऽपि साधनां करोति तदा समदर्शनं तु तत्र स्वाभाविकः अस्ति तत्र फलम् अस्ति साधनायाः फलमस्ति अत्र समदर्शनं तर्हि अत्र अत्र बहुत्र ग्रन्थेषु बहुत्र शास्त्रेषु बहुत्र एवमेव वदामः वसुधैवकुटुम्बकं वसुधैवकुटुम्बकम् इति वयं वदामः परन्तु वसुधैवकुटुम्बकम् इत्यस्य अर्थः कः इति वयं जानीमः वा अत्र अस्माकं हृदि तस्य तादृशभावः अस्ति वा सर्वत्र वयं शृण्मः वसुधैवकुटुम्बकं वसुदैवकुटुम्बकम् इति परन्तु एतादृशसमदर्शनत्वम् अस्माकम् अस्ति वा केवलं वयं वदामः वा केवलं मुखे वयं वदामः समदर्शनं समदर्शनम् इति चेत् तर्हि आम् वयं केवलं वदामः यतोहि केवलं वदनेन अथवा केवलं पुस्तकस्य पठनेन समदर्शनत्वं न आयाति समदर्शित्वं न आयाति न भवितुम् अर्हति अतः अत्र तदर्थं किं करणीयम् इति चेत् तदर्थम् अवश्यम् अस्माभिः साधना करणीया साधनां विना कोऽपि समदर्शित्वं प्राप्तुमेव न शक् यदि कोऽपि तत्र साधनां करोति एकवर्षपर्यन्तं करोति अथवा द्विवर्षपर्यन्तं करोति तदानीं तस्य हृदि एतादृशसमदर्शनभाव भावः स्वयम् आयाति तत्र प्रयासस्य आवश्यकता एव नास्ति वयं स्वयम् अनुभोक्तुं शक्नुमः यदा कोऽपि साधनां करोति तदानीं स्वयम् अनुभोक्तुं शक्नोति यत् इदानीं यः पुरुषः अत्र मम पा मम पुरतः अस्ति मया पूर्वं सः न पुरुषः न कदापि न तथापि मम मम हृदि मम ममता ममकारः अस्ति खलु किमर्थम् एत एवं मया एतादृशं पूर्वं कदापि न अनुभूतम् इदानीं कथम् एतादृशभावः आगतः इति वयं स्वयम् आश्चर्यचकिताः भवामः कथम् इत्युक्ते एतादृशभावः कथम् आयाति इति चेत् एतादृशभावः तु साधनाकरणेन एव साधनायाः आचरणेन एव एतादृशभावः आयाति वयं स्वयम् एक्स्पेरिमेण्ट् कर्तुं शक्नुमः वयं स्वयं द्रष्टुं शक्नुमः एतं भवति इति तर्हि अस्माकं लक्ष्यं किम् इति चेत् मया गतवर्गे उक्तमासीत् प्रथमतया वयं तु पशवः स्मः तदनन्तरं क्रमेण वयं वीराः भवामः तदनन्तरं वयं देवाः भवामः यदा वयं देवाः भवामः तदानीं तु अस्माकं परमात्मनि वयं परमात्मनि विलीनं वयं भवितुम् अर्हामः तर्हि अस्माकं लक्ष्यं किम् चेत् क्रमेण तत्र पशुतः वीरभावं प्राप्य ततः अस्माभिः देवाः अस्माभिः देवाः देवाः देव देवस्थानम् अस्माभिः अस्मा प्राप्तव्यं तर्हि तर्हि तादृशदेवस्थानं कथं प्राप्तुं शक्यते शक्यते इति चेत् तत्तु केवलं पुस्तकस्य पठनेन न भवितुम् अर्हति तत्तु साधनाद्वारा एव भवति अस्माकं ये ऋषयः आसन् तेऽपि अस्मिन् मार्गे ते गतवन्तः योगमार्गे ते गतवन्तः ते अपि साधना साधनां कृतवन्तः साधनां कृत्वा परमात्मनः साक्षात्कारमपि प्राप्तवन्तः अतः एव तत्र यदा ते वदन्ति ते, ते वदन्ति तदानीं वयं द्रष्टुं शक्नुमः तत्र समत्वभावः भवति तेषां वाक्येषु तर्हि एतादृशसमत्वभावः तु केवलं पुस्तकस्य पठनेन लभ्यते परन्तु साधना याः योगनिष्ठजीवनम् इत्यस्य अनुसरणेन एव भवितुं अर्हति इति कृत्वा अत्र समः पृषिना समः मशकेन समः नागेन समः एभिः त्रिभिः लोकैः एतादृशसमत्वं यदा आयाति तदानीं तत्र वक्तुं शक्नुमः योगस्य आचरणं जायमानम् अस्ति योगस्य आचरणं जायमानमस्ति इत्युक्ते अत्र अन्यत् अत्र उदाहरणमस्ति अत्र समत्वस्य विषये यथा तत्र इदानीं तत्र कोऽपि तत्र नाटकं करोति केचन जनाः मिलित्वा नाटकं कुर्वन्ति तदानीं स्टेज् यः मञ्चः अस्ति तस्मिन् उपरि जनाः सन्ति तत्र एकः दीपः भवति फोकस् लैट् भवति तत्तु सर्वेषाम् उपरि पतति खलु फोकस् लैट् सर्वेषाम् उपरि पतति मञ्चे ये सन्ति तेषां सर्वेषाम् उपरि फोकस् लैट् पतति तत्र मञ्चे जनाः न सन्ति अपि तत्र फोकस् लैट् तत्र दीपः तु अस्ति एवं परमात्मनः दृष्टिः सर्वस्य उपरि भवति एव तत् सर्वे तत्र सन्ति वा तत्र कोऽपि अस्ति वा इति नास्ति तत्र तस्य दीपः तस्य ज्वालः तस्य ज्योतिः सर्वस्य उपरि भवति एव अत्र इत्युक्ते तस्य पक्षपातः नास्ति एव परमात्मा ज्योतिस्वरूपः तादृशज्योतिः सर्वस्य उपरि ज्योतेः प्रकाशः सर्वस्य उपरि तु भवति एव तर्हि अत्र कोऽपि न वक्तुं शक्नोति परमात्मा पक्षपातं करोति मम मम कृते तस्य व्यवहारः भिन्नः अस्ति अन्यस्य कृते व्यवहारः भिन्नः अस्ति इति न वक्तुं शक्नोति वयं तु वयं किं कुर्मः जनाः किं कुर्वन्ति ते किं वदन्ति इत्युक्ते कोऽपि पुरुषः तस्य जातेः आधारेण कोऽपि तथा कथित उच्चस्थले अस्ति चेत् तदानीं तत्र तस्य व्यवहारः भिन्नः भवति अपि च कोऽपि धनिकः अस्ति चेत् तस्य कृते तस्य विषये तस्य पुरुषस्य व्यवहारः भिन्नः भवति कस्यचित् पार्श्वे अधिकं बलम् अस्ति चेत् शारीरिकबलम् अस्ति चेत् तर्हि तस्य विषये अस्माकं व्यवहारः भिन्नः भवति अथवा कस्यचित् विषये तत्र समाजे बलमस्ति प्रस्टीज् अस्ति गौरवमस्ति चेत् चेत् तदानीम् अस्माकं व्यवहारः भिन्नः भवति इत्येवं रीत्या अस्माकं व्यवहारः तु परिवर्तते सामान्यतया जनानां व्यवहारः परिवर्तते परन्तु परमात्मनः व्यवहारः एवं नास्ति कस्यचित् विषये अपि तादृशभेदभावः नास्ति तत्र उन्नत औन्नत्यभावः अथवा न्यूनभावः इति एतादृशं किमपि नास्ति जातिव्यवस्था इति अपि नास्ति जातेः आधारः आधारेणापि परमात्मा भेदं न करोति अथवा अन्य यत्किमपि भवतु तत्र यस्मिन् स्थले वसति अथवा धनस्य आधारेण अथवा वर्णस्य आधारेण अत्र किमपि स्वीकरोतु कमपि कमपि बिन्दुं स्वीकृत्य तस्य व्यवहारः भिन्नः भवति इति वक्तुं न शक्यते यथा दीपस्य प्रकाशः सर्वत्र पतति एवमेव परमात्मनः परमात्मा ज्योतिस्वरूपः अस्ति तस्य प्रकाशः सर्वत्र पतति सर्वत्र पतति अत्र पतति अत्र न पतति इति कदापि नास्ति यथा वृष्टिः सर्वत्र पतति तर्हि एवमेव पर्जन्यवत् इत्युक्ते यदा वृष्टिः पतति एकस्मिन् स्थले तर्हि सर्वत्र पतति अत्र अस्मिन् गृहे बहु धनमस्ति अतः अत्र एव अहं पतामि अन्यत्र न पतामि इति तथा नास्ति एवमेव परमात्मा समदर्शी अस्ति तर्हि अस्माकं जीवनस्य लक्ष्यं किं परमात्मनः प्राप्तिः तस्मिन् तस्यां तस्यां, तस्यां दिशि यदा वयं गच्छामः तदानीम् अस्माकं यदा योगनिष्ठजीवनम् इति मार्गे वयं गच्छामः तदानीम् अस्माकं वृष्टिः अपि अस्माकं दृष्टौ अपि अवश्यमेव आयाति अवश्यमेव आयाति इति अत्र उक्त्वा इदानीम् अस्माकं करपत्रं प्रति गच्छामः कोपि प्रश्नः अस्ति वा ओके okay. अस्तु तर्हि इदानीम् अत्र कर कर अस्माकं करपत्रमस्ति अहं कोऽहं किं च इति वयं जानीमः यत् मानवाः सृष्टिक्रमे तत्र अन्तिमस्थानम् आवाहन्ति तेषां शारीरिकदृष्ट्या मानसिकदृष्ट्या अधिकवर्धनमस्ति अन्येषाम् अपेक्षया अन्ये अन्येषां जीवानाम् अपेक्षया अस्माकं शरीरमपि पाञ्चभौतिकशरीरमस्ति अत्र पाञ्चभौ पाञ्चभौतिक अपि परमात्मनः एव सम्भूतानि तर्हि अत्र एतादृशमानवशरीरे मनः वर्तते मनः सम्पूर्णतया मनः वर्धितं वर्तते अपि च अत्र अस्माकं जीवात्मा अपि वर्तते अस्मिन् शरीरे जीवात्मा अपि वर्तते तर्हि मनः वर्तते जीवात्मा वर्तते पञ्चभ पञ्चभूतानि पञ्चभौतिकं शरीरं वर्तते परन्तु एतान् विहाय अन्यत् किमपि वर्तते कथं जानीमः अन्यत् अपि वर्तते इति चेत् वय वयं वदामः मम शरीरम् इति वयं वदामः वयं जानीमः वा न जानीमः परन्तु एवमेव वयं वदामः मम शरीरम् इति वयं वदामः अनन्तरं वयं वदामः मम आत्मा मम जीवात्मा इति वयं वदामः अथवा मम मनः इति वयं वदामः एवं वयं वदामः चेत् अत्र मम इति यः वदति सः मम इति कः अस्ति तर्हि कस्य स्वामित्वमस्ति कः अस्ति अत्र स्वामी यः एतेषां सर्वेषां स्वामित्वं अङ्गीकरोति तर्हि तादृशः कः इति इदानीम् अत्र प्रश्नः अस्ति तर्हि तत्र अस्माभिः दृष्टं यत् ततः अग्रे अस्माभिः दृष्टं तर्हि तादृशसत्ता का इति प्रश्ने सति तत्र ततः अग्रे अस्माभिः गतं तत्र अस्माभिः दृष्टम् अस्मिन् जगति यदा सृष्टिक्रमे सञ्चारधारायां यदा परमात्मनः सर्वं सम्भूतं प्रथमतया तत्र मनः भूममनः सम्भूतम् अस्ति तर्हि तत्र भूमौ मनसि सन्ति इति वयं जानीमः मात्तत्त्वम् अहन्तत्त्वम् अपि च चित्तं तर्हि तत्र अस्माभिः दृष्टं यदा प्रथमतया तत्र यः पुरुषोत्तमः अस्ति तस्य उपरि प्रकृतेः गुणस्य प्रभावः भवति सत्त्वगुणस्य प्रभावः भवति तदानीं मात्तत्त्वम् आयाति यदा महत्तत्वम् आयाति तदानीमेव प्रथमतया परमात्मा अवगच्छति अहमस्मि इति भावः तस्मिन् आयाति तत्र समष्टौ समष्टौ एतादृश स्थितिः अस्ति एवमेव व्यष्टौ व्यष्टौ अपि एतादृशस्थितिः अस्ति तत्र मैक्रोकाज़म् मैक्रोकाज़म् मैक्रोकाजम् इत्यत्र एतादृशस्थितिः अस्ति मैक्रोकाज़म् इत्यत्र अपि एवमेव भवति तर्हि यदा मनः मनः मनसः निर्वाणम् इत्युक्ते मन मनः आविर्भूतं भवति जीवस्तरे तदानीं तत्रापि एते त्रयः अंशाः सन्ति यदा तत्र महत्तत्त्वम् आयाति तदानीमेव अहम् अस्मि इति भावः जीवे आयाति तर्हि अत्र एतादृशभावः तु चैतन्यं विना न भवितुम् अर्हति चैतन्यम् आधारीकृत्य एव प्रभावेन मनः निर्मितम् अस्ति अतः मनसः स्वतन्त्रतया अस्तित्वम् इति वक्तुं न शक्नुमः मनसः अस्तित्वं तु चैतन्ये एव अस्ति सगुणब्रह्मणः उपरि एव तत्र मनसः अस्तित्वम् अस्ति तर्हि तत्र चैतन्यमेव आधारः अस्ति मनसः मनसः आधारः अस्ति तर्हि अत्र अन्ततो गत्वा पश्यामः चेत् सर्वस्य आधारः कः इति चेत् तत्र परमात्मा चैतन्यम् एव परमपुरुषः एव सर्वस्य आधारः अस्ति तदर्थम् दृष्टं यत् यता वृक्षः अस्ति वृक्षस्य तत्र काष्ठफलकः यः अस्ति काष्ठफलकस्य अस्तित्वं वृक्षात् पृथक् नास्ति वृक्षः अस्ति इति कृत्वा काष्ठफलकम् अस्ति वृक्षः नास्ति चेत् काष्ठफलकं नास्ति न एवमेव परमपुरुषः नास्ति चेत् तत्र मनः तु न भवितुमर्हति भूममनः वा भवतु अणु अणुमनः वा भवतु मनः तु न भवितुम् अर्हति परमा विहाय परमात्मानं त्यक्त्वा मनः तु न भवितुमर्हति तर्हि सर्वस्य आधारः अहमस्मि इति भावस्य आधारः अपि परमात्मा एव इति तावत्पर्यन्तम् अस्माभिः दृष्टमासीत् इदानीं ततः अग्रे किञ्चित् गच्छामः अत्र अयम् इदं करपत्रं तु लघुकरपत्रमस्ति तर्हि किञ्चित् अग्रे गच्छामः अहं दृश्यते वा मम स्क्रीन् आम भगिनि अस्तु भवती पठति वा भगिनि सर्वला भगिनि मनुष्याणाम् अहम् इति सता बुद्धितत्त्वम् अस्ति यत् सूक्ष्मतरम् अस्ति अहं तत्त्व चित्तयोः अपेक्षया अथ किम् नाम अहं तत्त्वम् चित्तम् च बुद्धितत्वे प्रकृतेः रजोगुणस्य प्रभावात् अहं तत्त्वम् अहङ्कारः अस्ति तत्वम् प्राप्नोति इति प्रथम अध्याये व्याख्यातम् आसीत् ततः बुद्धितत्वम् एव अहं तत्त्वम् तत्त्वेन प्रकटितुम् प्रकटितं भवति अहं तत्त्वम् अहङ्कार इतोपि प्रकृतेः तमोगुणस्य प्रभावेण चित्तम् इति रूपेण प्रकटितं भवति वस्तुतः अहं तत्त्व अहङ्कार चित्तम् च इति रूपेण बुद्धितत्वम् अथवा अहम् इति भावना एव प्रकटिता भवति प्रकृतेः रजोगुणस्य तमोगुणस्य च प्रभावात् अहं तत्त्वम् अहङ्कार चित्त च मनुष्य अहम सता स्थूलतरम कार्यामूपमे अतः मनुष्य मन अहम बुद्धित प्रक्षेप अस्थ मन बुद्धित्वा निर्मित अस्त इधाती उतवती पूर्व वह समीरीत्या सगुणब्रह्मण तस, तस्य प्रकृति प्रभाव कथं सृष्टेः निर्माणं सञ्चरधारा प्रसञ्चरधारा इति वयं दृष्टवन्तः इदानीं व्यक्त व्यक्ति दृष्ट्या इति दत्तमस्ति यदि वयं पूर्वं परिच्छेदे दृष्टवन्तः मनुष्यस्य शरीर यत् अस्ति तत् पञ्चभूत् पञ्चभूता भूतेभ्यः इति यदि निर्मि निर्मयत् निर् निर्मि निर्मितम् अस्ति तस्मिन् आगच्छति तत्र कथम् अहं भाव इति आगच्छति इति अस्ति सतोगुणस्य प्रभावेन प्रकृतेः यत् प्रभाव यत् प्रतिबिम्बम् आगच्छति मनुष्यः मनुष्यस्य मनुष्यस्य मनुष्य यत् शरीर मन इति मन् तत् प्रतिबिम्बत् वयं जीवात्मा इति वदामः तस्य यदि तत् समान एव अस्ति यथा सगुणब्रह्म आत्मा इति तयो मध्ये के केदना अस्ति किन्तु यदि व्यक्ति व्यक्तितत्त्वरूपेण यदि सतोगुणस्य प्रभावेन प्रथमं बुद्धितत्त्वया महत्तत्त्वं या अहम अहम् अस्मि इति भावः आगच्छति कथं मनुष्यः वदति अहम् अस्मि मम गृहम् अस्ति मम अहं उच्च उच्चै वदामि अहम् इति पठनं करोमि इति अहं यद् भावः आगच्छति मनुष्यते इति स्वामितत्त्वं यत् स्वामित्वं तस्य मनसि आगच्छति इति का सत्ता तस्य इदानीं दत्तमस्ति प्रथमं यदि प्रतिबिम्बं भवति तदनन्तरं ततोगुणस्य प्रभावेन अहं तत्त्वम् आगच्छति इति महत्व महत्तत्त्वं वयं प्रथमं वदामः अहमस्मि तदनन्तरं रजोगुणस्य प्रभावेन अहं तत्वम् आगच्छति अहं करोमि इति आगच्छति तदनन्तरं समोगुणस्य प्रभावेन चित्तस्य निर्माणम् आग निर्माणं भवति अप् चित्तप्रकटं भवति तत् चित्तप्रकटं भवति तत् अति यत् या, शरीरे ये इन्द्रियाणि सन्ति तेषां वयं जानीमः इत्यस्य आकार चित्ते आगच्छति तु इति सर्वं आ, चित्तं आ, सर्वं इति चित्र चित्तपटरूपेण चित्त चित्ते आगच्छति दत्तमस्ति अत्र आम् आम् आं समीचीनं भगिनि हा इत्युक्ते अयं विषयः अस्माकं परिचितः एव विषयः बहुवारम् अस्माभिः पूर्वमपि दृष्टम् अतः अतः स अस्माभिः अवगम्यते तर्हि अत्र अत्र षड्वादने यदा तमगुणस्य प्रभावः अधिकः भवति क्षितितत्त्वस्य उपरि तदानीं जीवः आविर्भूतः तदानीं जीवे तादृशजीवे मनः अपि आविर्भूतं जीवात्मा इति अपि जीवात्मा अपि आविर्भूतः तर्हि तदेव तत्र जीवः इति वयं वदामः खलु तस्मिन् जीवे य यद् मनः वर्तते तद् तद् मनः तस्मिन् मनसि तत्र त्रयः अंशाः संति, सन्ति सन्ति अहं महत्तत्त्वम् अहं तत्त्वम् अपि तत्र समष्टौ समष्टौ शुद्धपुदपुरुषस्य उपरि सत्त्वगुण सत्त्वगुणस्य रजोगुणस्य तमोगुणस्य प्रभावेन भिन्नभिन्न रूपाणि भिन्नभिन्न भिन्नभिन्नरूपेण मनः आविर्भूतं भवति तर्हि एते सर्वे अपि मनसः केवलं कार्यात्मकरूपमेव का यथा माता भिन्नभिन्नकार्यं करोति तथैव अत्र परमात्मा इदानीम् एता प्रकृतेः प्रभावात् भिन्नरूपं कार्यात्मकरूपं का धरति अतः अत्र तदेव अत्र उक्तमस्ति अत्र कोऽपि प्रश्नः अस्ति इदानीम् अग्रिमपरिच्छेदः अस्तु तर्हि किं सरिता भगिनी पठति वा नमस्कारः नमस्कारः यदा यदा भौतिकशरीरा यदा भौतिकशरीरं भौतिकशरीरं स्थूलजगतः पञ्चभूतैः निर्मितं भवति तदैव अणुचैतन्यम् अथवा जीवात्मा प्रतिबिम्बितः भवति अणुचैतन्ये प्रकृतेः सत्त्वगुणस्य प्रभावेण बुद्धितत्वं निर्मितं भवति अतः बुद्धितत्वम् अथवा अहम् इति भावना भौतिकशरीराधीना भवति बुद्धितत्वं शरीरस्य प्रत्येकं कणं प्रत्येकं कणम् प्नोति इति कृत्वा कश्चन पुरुषः शरीरस्य प्रत्येक कर... प्रत्येकस्मिन् भागे अहम् इति भावं अनुभवति अतः अहम् इत्यस्य शरीरेण स शरीरेण सह तादात्म्यं कर्तुं कश्चन प्रवृत्तः भवति परन्तु अहम् इति भावना शरीरं च समानसत्ता नास्ति इति पूर्वं व्याख्यातं ते भिन्ने अहम् इति भावना बुद्धितत्वम् अस्ति भौतिकशरीरं च केवलं तस्याः भावनायाः आश्रयमात्रं वर्तते अत्र अस्माकं भौतिकशरीरं पञ्चभूतैः निर्मितं भवति तदा जीवात्मा तत्र प्रतिबिम्बं प्रतिबिम्बिता भवति अथवा अनुचितम् तत्र प्रतिबिम्बं भवति अनुचैतन्ये एव प्रकृतेः सत्त्वगुणस्य प्रभावेण अहम् इति अहम् अस्मि अथवा किञ्चित् सत्तारूपेण तत्र बुद्धितत्वं तस्य बुद्धितत्वस्य स्थापना भवति तदा रजोगुणप्रभावेण अहम् अस्मि इति भावना भवति तदा तदनन्तरम् अहं करोमि इति भावनाया चित्तः भिन्नभिन्न भिन आकारं गृह्णाति इदानीं बुद्धितत्त्वं तु शरीरस्य प्रत्येकं कणे वर्तमानं भवति व्याप्नोति अर्थात् व्या, तत्र अस्ति तत्र भावना अस्ति एव अहम् अस्मि तत्तु शरीरस्य प्रत्येककणे इति भावः अस्ति इदानीं वयम् अस्माकं शरीरं यत् हस्तः वर्तते यत् अङ्गुल्या वर्तते तत्र सर्वत्र अहम् इति भावना तु अस्ति एव मम अङ्गुली मम मम इती सर्वत्र भावना अस्ति अस्त अतः वह समस्त शरीरण सह तत्म्य कुरानी अहम की भावना सर्वत्र अस्ति किन्तु आ, शरीर अहम भावना वे भिन्ने अस्त शरीर तो अहम भावनाया आश्रय वर्त है किंतु अहम भावना तो एक व्यापक भावना अस्सी स्थिति अहम अहम अस्टना सर्व शरीर शरीर तो आश्रय वर्त है समीची समीचीनम् इत्युक्ते अस्मिन् विषये बहूनां भवति बहूनां यद्यपि अत्र सा सा अस्ति इति भाति परन्तु अत्र बहूनां भ्रमः भवति यतोहि अत्र बहवः सन्ति ये चिन्तयन्ति अहम् मम शरीरमेव अहम् इति चिन्तयन्ति अहम् इत्युक्ते इति चेत् मम शरीरमेव अहम् इति वदन्ति अथवा अहम् ते वदन्ति जीवात्मा एव अहम् इति वदन्ति अतः अत्र स्पष्टतया भेदः कृतः वर्तते यद् यद्यपि अत्र शुद्धपुरुषात् एव जीवात्मा आविर्भूतः शुद्धपुरुषः अस्ति तस्मादेव जीवः आविर्भूतः अस्ति एण्ड् तस्मात् एव शुद्धपुरुषात् एव अहम् अस्मि इति भावः अपि आविर्भूतः अस्ति तथापि अत्र अनयोः भेदः अस्ति अहमस्मि इति भावः भिन्नः अस्ति शुद्धपुरुषः भिन्नः अस्ति जीवात्मा भिन्नः अस्ति इति अत्र स्पष्टतया अस्माक अस्माकं मनसि एतेषां भेदः कः इति अस्माभिः अस्माकं मनसि भवेत् तत्र यद्यपि अहमस्मि इति भावः न भवति यावत्पर्यन्तं शरीरं नास्ति शरीरमेव आधारः अस्ति अहमस्मि इति भावस्य यतोहि मनः शरीरमस्ति अस्ति चेदेव अहमस्मि इति भावः अपि आयाति तर्हि तथापि मनः भिन्नः मनः भिन्नमस्ति शरीरं भिन्नम् शरीरं भिन्नम् मनः भिन्न जीवात्मा अपि भिन्नः अस्ति तर्हि यद्यपि तत्र यद्यपि मनः मनः तु शुद्धपुरुषात् एव मनः निर्मित निर्मितमस्ति तत्र पञ्चभूतानि अपि शुद्धपुरुषात् एव निर्मितानि सन्ति अस्माकं शरीरं पञ्चभौतिकशरीरम् अस्ति तथापि शुद्धपुरुषः भिन्नः अस्ति मनः भिन्नमस्ति शरीरं भिन्नम् अस्मिन् अस्मिन् आध्यात्मिक यात्रायाम् अस्याम् आध्यात्मिकयात्रायाम् अस्य अयं विषयः स्पष्टः भवेत् अयं विषयः स्पष्टः भवेत् अत्र आध्यात्मिका आध्यात् आध्यात्मिकता इत्युक्ते केवलं तत्र पुस्तकीयज्ञानं नास्ति पुस्तकीयज्ञानात् परमात्मनः साक्षात्कारः केवलं पठनेन न भवितुम् अर्ह परन्तु यदा वयं तत्र आध्यात्मिकविषये वयं पठामः तदानीं किं भवति इति चेत् अस्माकं मनसि स्पष्टता जायते स्पष्टता जायते अत्र आ, किं किं किम् अस्ति कथम् अवगन्तव्यम् इति स्पष्टता जायते अहं कः अस्मि कुतः अहम् आगतः कुतः अहं गच्छामि इति एतत् सर्वं यदा वयं वदामः अर्थः कः इति वयं स्पष्टतया ज्ञातुं शक्नुमः यदा पठामः परन्तु इत्युक्ते पठनम् अनावश्यकम् इति पठनम् आवश्यकं परन्तु पठनमेव पठनेन एव साक्षात्कारः भवति इति अपि नास्ति पठनेन साक्षात्कारः भवति इति नास्ति तर्हि अत्र अत्र, अत्र कः इति ज्ञातुं पठनम् आवश्यकमस्ति यदा मार्गः कः इति अस्माभिः ज्ञायते तदानीं तत् तत्र अग्रगतिं प्राप्तुम् अस्माभिः तथा व्यवहर्तव्यं तस्य जीवने आनयनं कथम् इति अपि अस्माभिः अवगन्तव्यं केवलं पठनेन किमपि न भवति तर्हि इदानीं इदानीं तत्र कल्कटानगरे कोऽपि अस्ति कल्कटानगरात् दिल्ली दिल्लीनगरं पर्यन्तं गन्तुमिच्छति तदानीं प्रथमतया किम् तर्हि मार्गः कः कथं मया गन्तव्यं ततः इतः आरभ्य ततः कथं गन्तव्यम् एतत् सर्वम् अस्माभिः ज्ञातव्यं ज्ञातव्यम् अस्ति तर्हि केवलं वयं चिन्तयामः अहं दिल्लीनगरं गच्छामि इति केवलं चिन्तनेन न भवति खलु केवलं वयं पठामः ओ इतः दिल्लीनगरं कथं गन्तव्यम् इति केवलं वयं पठामः चेत् तेन अस्माभिः गम्यते वा न खलु तर्हि प्रथमतया वयं मार्गः कथमस्ति कथं गन्तव्यम् एतत् सर्वम् अस्माभिः प्रथमतया पठनीयम् अवगन्तव्यं यदा अवगच्छामः तदानीं वयं साक्षात् तत्र रेल्यानं स्वीकृत्य अथवा विमानं स्वीकृत्य तत्र उपविश्य वयं गच्छामः खलु केवलं पठनेन न भवति खलु एवमेव अत्र अत्र यद् यत्किमपि वयं पठामः आध्यात्मिकविषये तत्तु आवश्यकमस्ति तेन अस्माभिः मार्गः कः इति ज्ञायते यदा मार्गः ज्ञातः तदानीम् अस्माभिः आचरणीयम् आचरणेन एव अग्रगतिः भवति केवलं you know, केवलं तत्र रेल्यानम् अस्ति इतः ततः गन्तव्यम् इति ये तावदेव वयं अवगच्छामः चेत् पर्याप्तं नास्ति तत्सर्वम् अवगम्य साक्षात् गत्वा रेल् वा याने उपविश्य यात्रां कृत्वा तदानीमेव वयं दिल्लीनगरं प्राप्नुमः एवमेव आध्यात्मिकजीवने अपि योगनिष्ठजीवने अपि तथैव तर्हि पठामः सर्वम् अवगच्छामः मार्गः कः इति जानीमः तदन् तदनन्तरम् अस्माभिः व्यवहर्तव्यम् इत, इत् तत्र अहं दिल्लीनगरमेव गन्तुम् इच्छामि अन्यत्र गन्तुं न इच्छामि इति वयम् uh, अवगन्तुं uh, शक्नुमः आध्यात्मिकचिन्तनेन आध्यात्मिकपठनेन मम गन्तव्यस्थानं किम् अस्ति इति वयं ज्ञातुं शक्नुमः तदनन्तरं कथं गन्तव्यम् इति अपि वयं ज्ञातुं शक्नुमः तदानीं तदनन्तरम् आचरणं करणीयं तदानीमेव वयम् अग्रगतिं प्राप्तुं शक्नुमः अत्र ये विषयाः उक्ताः अस्ति पूर्वमपि चर्चिताः तथापि अत्र स्पष्टतया अस्य विषयस्य बोधः अस्माकं मनसि भवति चेत् तदानीं सारल्यं भवति अत्र अत्र अत्र ये विषयाः उक्ताः ते अवगताः वा कोऽपि संशयः अस्ति वा तर्हि तत्र उक्तं यद् शरीरम् अहम् नास्ति खलु तदेव शरीरम् अहं नास्ति शरीरमहं नास्ति शरीरम् आधारः अस्ति तत्र uh, शरीरमस्ति इति कृत्वा मनः अस्ति शरीरमस्ति इति कृत्वा मनस् मनसः व्यक्तिकरणमस्ति मनः तु अस्ति मनसः व्यक्तिकरणमस्ति शरीरमस्ति इति कृत्वा आत्मा जीवात्मा अपि अस्ति जीवात्मनः व्यक्तिकरणमपि अस्ति तर्हि एतत् अहं का सूचयति अहम् इत्युक्ते वस्तु अहम् इत्युक्ते अत्र जीवात्मा नास्ति अहम् इत्युक्ते शरीरं नास्ति अहम् इत्युक्ते मनः नास्ति अन्ततो अहम् इत्युक्ते तत्र परमपुरुषः एव अहम् परमात्मा एव अन्ततो गत्वा अहम् स एव स सर्वस्य स्वामी अस्ति खलु सर्वं तु तस्य चित्ते एव जायमानमस्ति अतः अन्ततो गत्वा अहम् इत्युक्ते परमपुरुषः एव अहम् तर्हि अन्तिमपरिच्छेदः भवती स्वीकृतुमिच्छति दगु लघुपरिच्छेदः अतः मनुष्यस्य अहम् इति भावना तस्य जीवात्मा वा शरीरं वा नास्ति सा भावना केवलं अणुचैतन्यस्य मानसीकसृष्टिः एव अस्ति बुद्धितत्वम् इति तस्याः संज्ञा एतत् अहम् इति भावना मनसः द्वे कार्यात्मक कार्यात्मकरूपे इतोपि प्रकटीकरोति ते रूपे अहं तत्त्वम् अहङ्कारः चित्तञ्च इति अस्तु अत्र अत्र दत्तमस्ति यद् मनुष्यस्य अहम् इति भावना सर्वत्र भवति तत् कं सूचयति इत्युक्ते आ, भावना जीवात्मा अपि नास्ति शरीरमपि नास्ति तद् अहं भावना अणुचैतन्यस्य मानसिकसृष्टिः अणुचैतन्य इत्युक्ते भूमाचैतन्यस्य भूमाचैतन्यात् यद्रूपं वयं प्राप्तवन्तः तदेव अणुचैतन्यं वा अनुचैतन्यम् जीवात्मा जीवात्मा एव अनुचैतन्यम् अस्तु जीवात्मा यद् जीवात्मा अस्ति तस्य एव सृष्टिः जीवसृष्टिः इति अपि वक्तुं शक्नुमः वा न जानामि तद् अस्माभिः सृष्टमस्ति एतदहं भावना इति मानसिकसृष्टिः एव अस्ति अस्माकं मनसि एतद् भावना यदस्ति तद् वयं चिन्तयामः तद् इति अहम् इति तस्य नामः अस्ति बुद्धितत्वम् एतद् बुद्धितत्वमेव महत्तत्त्वं खलु महत्तत्त्वम् इति एव वदामः बुद्धितत्वम् इति न वदामः महत्तत्त्वम् हा अस्तु तर्हि महत्तत्वमेव अहमिति शङ्ा वा महत्तत्त्वस्य एव अहम् इति शञ्ज्ञा वा एतद् महत्तत्त्वम् इत्युक्ते अहम् अस्मि इति भावः स नालेज् आफ् इट्स् नालेज् आफ् एक्सिस्टेन्स् नालेज् आफ् ऐ एक्सिस्ट् इस् द महत्तत्वम् अहमस्मि अस्मि अस्मि अस्मि इति भावः अस्ति खलु आं तादृशभावः एव महत्तत्त्वम् अहमस्मि इति भावः अहमस्मि इति भावः महत्त्वम् अहं नास्ति अहम् अहम् अस्मि अहं भिन्नः अहं भिन्नः अहम् अस्मि इति भिन्नः अस्तु इत्युक्ते अहम् इति तत्र निर्गुणपुरुषः अस्ति खलु निर्गुणपुरुषः तस्मिन् अहमस्मि इति भावः नास्ति अहमस्मि इति भावः कदा आयाति यदा प्रकृतेः प्रकृतेः गुणस्य प्रभावः भवति पुरुषस्य उपरि सुतपुरुषस्य उपरि तदानीमेव अहमस्मि इति भावः आयाति अतः अहमस्मि इस् मोडिफैड् कान्शियस्नेस् चैतन्यस्य विवर्तितरूपं hmm. तदेव अहमस्मि इति भावः केवलम् अहम् इति शुद्धपुरुषः निर्गुणपुरुषः तत्र कोऽपि भावः नास्ति ah. अस्तु तर्हि यद् मनुष्यस्य मनसि मनुश्य यद्भावना अस्ति अहमस्मि तद् केवलम् अस्माकं सृष्टिः एव तत्तु महत्तत्त्वपुरुष तत्तु तत्त्वगणस्य प्रभावेन प्रकृतेः प्रभावेन पुरुषस्य उपरि प्रकृतेः प्रभावेन मनसः निर्माणम् अस्तु तर्हि एतत् अहमिति भावना मनसः ka द्वे कार्यात्मकरूपे का इतोपि प्रकटीकरोति द्वे कार्यात्मकरूपे इत्युक्ते के अहं तत्त्वं चित्तम् yada bhavati then it takes further functional functional form first it mm -hmm. functional form first took the of aham महत्तत्त्वात् यदा प्रकृतेः प्रभावः भवति देन् impacting फार्म्स् uh, more and more then फार्म् आफ़् अहम् अस्मि देन् वेन् द two more forms the aham tattva and the मोर् so there are two other functional forms of uh, functional forms of the mind right, it is the same पुरुष so तदर्थमेव अस्माभिः किं किं किं एक एका माता अस्ति के पुरुषः अस्ति शुद्धपुरुषः अस्ति सा माता इदानीं पत्नी अस्ति गृहे अनन्तरं सा पुत्रस्य कृते माता अस्ति बहिः गच्छति चेत् वैद्या अस्ति इति एका सत्ता भिन्नभिन्न तस्याः भिन्नभिन्नकार्यात्मकरूपाणि का सन्ति खलु एकत्र पत्नी एकत्र एकत्र वैद्या इति तथैव पुरुषः एक एकः एव पुरुषः एक, एक शुद्धपुरुषः प्रकृतेः प्रभावात् <्यों> सः एव भिन्नकार्यात्मकरूपं प्राप्नोति स एव इदानीं महत्तत्त्वम् अस्ति सः एव इदानीम् अहं तत्त्वम् अस्ति सः एव इदानीं चित्तम् अस्ति सः जगति सर्वत्र प्रकृतिः अस्ति पुरुषः अस्ति अतः सत्ताद्वयं विहाय अन्यत् किमपि नास्ति सर्वत्र अस्ति प्रकृतिः अस्ति पुरुषः अस्ति प्रकृतिः अस्ति पुरुषः अस्ति निर्गुणावस्थायामपि प्रकृतिः अस्ति परन्तु सा सुषुप्त अवस्थायाम् इत्युक्ते इत्युक्ते पुरुषः इच्छति यत् प्रभावितं न कर्तुं न शक्नोति तदानीमपि प्रकृतिः अस्ति प्रकृतिः नास्ति इति नास्ति प्रकृतिः अस्ति परन्तु दुर्बला अस्ति इति सर्वत्र प्रकृतिः अस्ति सर्वत्र पुरुषः अस्ति सर्वत्र अस्ति निर्गुणावस्थायां प्रकृतिः दुर्बला अस्ति अतः किमपि कर्तुं न शक्नोति पुरुषस्य प्रधानता अस्ति सगुणावस्थायां पुरुषः अङ्गीक किं पुरुषः सम्मतिं ददाति अनुमतिं ददाति अस्तु भवती किमपि करोतु इति कृत्वा तत्र गुणस्य प्रभावः भवति तदानीं सृष्टिः जायते यदा सृष्टिः जायते तदानीं सृष्टौ पुरुषः एव अस्ति प्रकृतिः एव अस्ति अन्यत् किमपि नास्ति तर्वात् प्रकृतेः प्रभावः तदानीं तस्मिन् स्तरे सगुणस्तरे प्रकृतिः तु बलयुक्ता <laughs> अस्ति खलु तदानीमपि प्रकृतिः बलयुक्ता इति न वक्तुं शक्नुमः तदानीमपि प्रकृ पुरुषः अनुमतिं ददाति अस्तु भवती भवत्याः कार्यं करोतु इति तदर्थं सा mm. किं सर्वं करोति इत्युक्ते तदानीमपि सा बलवती इत्युक्ते पुरुषः अनुमतिं ददाति इति कृत्वा सा बलवती नो चेत् बलवती न भवितुमर्हति सर्वदा शक्तिः सा शिवस्य शक्तिः he is always subordinate to the shakti hi shiva sya shakti hi ataha shiva shakti atmakam brahma shakti hi sa shiva sya shakti hi yada purusha anumatim dadati astu bhavatya karyam karotu bhavatya karyam kartum just like in you know, we assign responsibility to something and then we give them authority to do the job tatha purusha anumatim dattva तत् प्रकृतेः कृते अधिकारमपि ददति ददाति अस्तु भवती भवत्याः कार्यं करोतु इति कार्यस्य करणार्थं किं किम् अपेक्षितं तत्सर्वं भवती करोतु इति कृत्वा अनुमतिं ददाति इति कृत्वा प्रकृतिः प्रकृत्याः बलवत्वं तदानीम् आयाति mm -hmm. अस्तु तर्हि एतत् अहम् इति यद्भावना अस्ति अस्माकं तत्तु शुद्धपरमपुरुषस्य भावना एव परन् वयम् अणुचैतन्यस्तरे अस्माकं मानसिकसृष्ट्याम् एतद् त्रयः सप्ताहनिर्मितं कुर्मः तदस्ति महत्तत्त्वम् अहं तत्त्वं चित्तम् इति परन्तु तत्र तु केवलं शुद्धपुरुषस्य अहं भावना एव प्रतिबिम्बितमस्ति परन्तु तत्तु प्रत्यक्षरूपेण अहम् इति वक्तुं न शक्नुमः प्रत्यक्ष अहम् इत्युक्ते केवलं परमपुरुषस्य भावना एवं वा भावना एव नास्ति परमपुरुषस्य भावना इति न परमपुरुषः शुद्धपुरुषः एव अहं यदा भाव इति वयं वदामः तदानीं प्रकृतेः प्रभावः अस्ति तर यद तर्हि यद्भावना अस्ति तद् अस्माकं मनसि यद् जातं स्तराणि तत्सर्वम् भावना तु मनसि मनसि एव अस्ति भावना पुरुषः इत्युक्ते किमपि नास्ति सः एवमेव अस्ति जस्ट् लैक् अ स्टोन् हि जस्ट् लैक् दिङ्ग् नो नो मूमेण्ट् नो क्रिया नथिङ्ग् इस् जस्ट् लैक् द्योतिस्वरूप किमपि न करोति एवमेव हि इस् अलूफ् हि डजन् डू एनिथिङ्ग् हि जस्ट् देर् अलूफ् जस्ट् इस् देर् युनो जस्ट् अलूफ् वाचिङ्ग् एव्रिथिङ्ग् अण्ड् प्रकृति डस् एव्रिथिङ्ग् इन् दोमेण्ट् यु स्टार्ट् फीलिङ्ग् ऐ ऐ एक्सिस्ट् देन् इस् प्रकृति प्रकृति डूइ् अ वर्क् पुरुषे पुरुषे तु अहम् अस्मि इति भावः अपि नास्ति किमपि नास्ति इट्स् जस्ट् देयर् लैक् देट् अस्तु अवगतं खलु इदानीम् अत्र पुरुषः अस्ति शुद्धपुरुषः अस्ति तदानीम् इत्युक्ते समश् मनसि जातम् अहम् जीवात्मा इति परन्तु इदानीं तत्र स्पष्टी अभवत् अहम् इत्युक्ते जीवात्मान परमपुरुषः एव अहम् इत्युक्ते जीवात्मा परमपुरुषः वस्तुतः जीवात्मा तु परमपुरुषस्य अंशः एव अन्ततो गत्वा आ, यदा वयं पृथक् अस्मि इति भावः अस्ति परमात्मनः अहं पृथक् इति भावः अस्ति चेत् तदानीं तत्र जीवात्मा मनः सर्वम् अस्ति इत्युक्ते अत्र समुद्रस्य उदाहरणं वयं पश्यामः चेत् समुद्रे एकः किमस्ति चषकः अस्ति चषके तत्र जलमस्ति अथवा तत्र किमस्ति चषके जलमस्ति इदानीं चषके यज्जलमस्ति तज्जलं तु बहिः जलमस्ति द्वयमपि समानमेव खलु चषके जलं भिन्नं समुद्रे जलं भिन्नम् इति नास्ति परन्तु यदा चषकः नास्ति चषकः इत्युक्ते कप् एव खलु मम इदानीं समये चषकः कम्लर् अस्ति कंसः किमस्ति कंसः कंसः इत्युक्ते कप्स्य इति वा कम्लर् वा भवतु कप् वा भवतु किमपि भवतु वन् वेजल् एकं पात्रं पात्रमस्ति इति चिन्तयतु एकं पात्रमस्ति तत्र पात्रे जलमस्ति पात्रात् बहिः समुद्रे अपि जलमस्ति पात्रे यज्जलं तज्जलं समुद्रे अपि यज्जलं तद् द्वयमपि समानम् इदानीं पात्रं नास्ति ना चेत् तज्जलं समुद्रजलेन सह मिश्रितं भवति खलु आम् तदानीं भेदः न वक्तुं शक्नुमः अतः यावत्पर्यन्तं पात्रमस्ति तावत्पर्यन्तम् इदं भिन्नं तद्भिन्नम् इति व्यवहारः अस्ति ततो जीवात्मा परमात्मनः भेदः नास्ति परन्तु यावत्पर्यन्तं पृथक् अस्तित्वम् इति वयं वदामः यावत्पर्यन्तं संस्काराः सन्ति तावत्पर्यन्तं जीवात्मा भिन्नः परमात्मा भिन्नः इति व्यवहारः अस्ति अन्ततो गत्वा जीवात्मा परमात्मनः परमात्मनोः ऐक्यं भवति यदा मनः मनः मनः न भवति तदानीं तत्र एतादृशमपि वक्तुं शक्यते वा एकः वस्तु अस्ति अनन्तरं तस्य प्रतिबिम्बं भवति एतादृश तत्र कोऽपि दर्पणः अस्ति चेत् तत्र प्रतिबिम्बमस्ति तत् प्रतिबिम्बमेव वयं सर्वदा अहम् इति चिन्तयामः परन्तु यदा दर्पण नास्ति तत्र कोऽपि पृथग्भावः नास्ति तत्र वस्तु एकः एव अस्ति तदेव अहं वा शुद्धपुरुषः वा तादृशं वा इति उदाहरणद्वयं वक्तुं शक्नुमः एकं तु समुद्रजलस्य विषये चिन्तनं कर्तुं शक्नुमः अथवा यदा एकः भिन्न पृथक् सत्ता अस्ति तत्र प्रकृतः प्रकृतेः प्रभावः अस्ति यत्र पृथक् सत्ता नास्ति तत्र केवलं शुद्ध अहं अहम् इति पुरुषः शुद्धपुरुषः परं पुरुषः यदा अस्माभिः पूर्वं चर्चितम् एकं एकं पुष्पमस्ति मध्ये सर्वत्र परितः सर्वत्र तत्र किं दर्पणानि सन्ति तदानीं पुष्पस्य प्रतिबिम्बः प्रत्येकं दर्पणे भवति प्रत्येकस्मिन् दर्पणे भवति तदानीं तत्र यदा तत्र प्रतिबिम्बः भवति तदानीं तत्र अत्र दर्पणमेव तत्र मनः अस्ति यावत्पर्यन्तं दर्पणमस्ति पृथग्भावः भवति जीवात्मा अपि भवति यदा मनः नास्ति तदानीं मध्ये एकः पुष्पमेव एकं पुष्पमेव अस्ति अवशिष्यते अन्यत् किमपि नास्ति एवं यदा दर्पणमस्ति तावत्पर्यन्तम् अहं मनस्सः मनस् एव कारणम् एतत् प्रतिबिम्बस्य सृष्टेः आमां मनः एव कारणं मनः एव कारणं बन्धस्य मनः एव कारणं मोक्षस्य मोक्षस्य कथं मनः यदा नास्ति तदानीं मोक्षः भवति मनः यदा अस्ति तदानीं बन्धनम् मनः यदा नास्ति तदानीं मोक्षः मनः यदा अस्ति तदानीं बन्धनं तर्हि मनः एव द्वयोः अपि कारणं मोक्षस्यापि कारणं तत्र जीवनस्यापि कारणं बन्धस्यापि कारणं तदर्थम् एकम् एकं श्लोकमस्ति एकः श्लोकः अस्ति खलु मनः एव मन्दमोक्षयोः कारणम् अस्तु धन्यवादः तर्हि अत्र इदं करपत्रं समाप्तं कोऽपि अत्र संशयः अस्ति वा अयं विषयः स्पष्टः अस्ति वा इदानीं सरिता भगिनी इदानीं भवती अवगतं वा गतवर्गे भवत्याः क्लेशः आसीत् खलु आमां भगिनि स्पष्टता अस्ति वा इदानीमपि संशयः अस्ति वा अस्ति चेत् पृच्छतु भवत्या अवगतं वा इति अत्र श्लोकः अस्ति इदम् अन्तिमः अन्य संशयः अस्ति तत्र अहम् अनुसृत्वा एव मम कारः खलु अहम् अनुसृत्वा एव अहम् अनुसृत्वा इति न अहम् इति भावम् अनुसृत्य भावम् अनुसृत्य भावम् अनुसृत्य एव मम ममत्वं भवति एवं वा आम् इत्युक्ते वस्तुनः वस्तुनः आम् वस्तुन अधिकारं प्रति वस्तुप्रति आम् आं वस्तु मनः एव कारणम् इति अत्र एकः श्लोकः अस्माभिः पूर्वं दृष् दृष्ट दृष्टः आसीत् न जाने भवति आसीत् वा न वा इति मनः एव मनुष्याणां कारणं मन्धमोक्षयोः बन्धः तु विषयासङ्गी मुक्तो निर्विषयं तथा इति श्लोकम् इति श्लोकः अस्माभिः दृष्टः मनः एव मनुष्याणां बन्धनस्य कारणं मोक्षस्यापि कारणम् इत्युक्ते इत्युक्ते तत्र मनः एव बन्धनस्यापि कारणं मोक्षस्यापि कारणम् अन्येषां जीवानां कृते एतादृशस्वातन्त्र्यं नास्ति मनुष्याणां स्वातन्त्र्यम् अस्ति अन्येषां जीवानां सुकेवलं सहजवृत्तिः एव अस्ति प्रकृतेः नियमानुसारं ते कार्यं कुर्वन्ति तेषां पुरतः विकल्पः नास्ति परन्तु मनुष्याणां कृते तत्र मनः स्वतन्त्रं वर्तते मनः स्वतन्त्रं वर्तते अतः ते स्व इच्छानुसारं ते कुर्वन्ति कार्याणि यदि ते ते मोक्षं मोक्षस्य चयनं कुर्वन्ति तदानीं ते मोक्षं प्राप्नुवन्ति यदा ते बन्धनस्य चयनं कुर्वन्ति तदानीं ते बद्धाः भवन्ति अयमेव मुख्यः भेदः मनुष्यः अपि च पशुः अनयोः मध्ये अयमेव मुख्यः भेदः अस्ति तर्हि कथं वय, वयं आ, तत्र मोक्षं प्राप्नुमः इत्युक्ते यदा मनः अस्माकम् अहङ्कारे स्थितः स्थितं भवति यदा अस्माकं मनसः विषयः अस्माकम् अहङ्कारः अथवा अस्माकं मनसः विषयः बाह्यवस्तु अस्ति अपि च यावत्पर्यन्तं चिन्तयामः अहम् मम अहङ्कारः इति वयं चिन्तयामः तावत्पर्यन्तं मनः मनसः वर्धनं न भवति यदा मनः परमात्मनः चिन्तनं करोति यदा मनः परमात्मनः स्वरूपं धरति तदानीं किं भवति इति चेत् तदानीम् अत्र स्व अहङ्कारः यः अस्ति यः यहा स्मोलय अस्ति लघु अहङ्कारः अस्ति सः अपगच्छति अपि च परमात्मनः परमात्मनः यः तत्र बृहत् अहम् इति अस्ति अहम्भावः अस्ति तद्वयं स्वीकुर्मः तदानीं किं भवति इति चेत् मनः यथा चिन्तयति तद्वत् भवति यदा परमपुरुषस्य चिन्तनं करोति तदानीं मनः वर्धते यदा मनः वर्धते तदानीं तत्र मनः सूक्ष्मं भवति यदा सूक्ष्मं सूक्ष्मं सूक्ष्मं भवति तदानीं किं भवति इति चेत् तत्र यदा मनः लघुविषये चिन्तनं करोति लघु लघु अहङ्कारस्य विषये चिन्तनं करोति तदानीं लघु भवति यदा मनः परमात्मनः परमात्मनः विषये चिन्तनं करोति तदानीं सः तद् मनः विमुक्तं भवति विमुक्तं भवति यावत्पर्यन्तं लघु अहङ्कारस्य विषये चिन्तनं करोति तदानीं बद्धः भवति यदानीं यदा शिवस्य चिन्तनं करोति तदानीं शिवः एव भवति शिवः भवति पाशमुक्तः भवति शिवः भवति तदानीं तदेव मुक्तिः अस्ति यदा प परमपुरुषः तु अनन्तसत्ता वर्तते तर्हि अनन्तस्य चिन्तनं यदा करोति तदानीं मनः मनः अपगच्छति मनः न भवति मनः परमात्मनि विलीनं भवति यदा तत्र लवणं यदा तत्र यत् किं पाञ्चालिका अस्ति लवणस्य पाञ्चालिका अस्ति तादृशपाञ्चालिकां समुद्रे वयं क्षिपामः चेत् तत्र पाञ्चालिका किं भवति शनैः शनैः शनैः शनैः तत्र समुद्रजले तत्र विलीनं भवति खलु तद् तदनन्तरं पाञ्चालिका नास्ति तत्र पाञ्चालिका नास्ति पाञ्चालिकायाः पाञ्चालिका कुत्र अस्ति इति न द्रष्टुं यदा मनसः मनः परमात्मनि विलीनं भवति शनैः शनैः शनैः शनैः विलीनं भवति तदानीं किं भवति मनः येन भवति यथा तत्र पाञ्चालिकायाः विलीनं भवति जले एवम् अस्माकं मनः परमात्मनि विलीनं भवति तदानीं मनः न भवति पृथक् अस्तित्वमपि न भवति तदानीं मनः किं भवति पाशैः विमुक्तं भवति पाशैः बद्धः न भवति विमुक्तं भवति विमुक्तः विमुक्तं भवति चेत् तदानीं तत्र जीवः शिवः भवति अयमेव अयमेव मार्गः अस्ति आध्यात्मिकमार्गः अस्ति पाशात् पाशात् मोक्तुं पाशबद्धः यः अस्ति सः जीवः पाशमुक्तः यः अस्ति सः शिवः तत्र अष्टपाशाः षड्रिपवः सन्ति तेभ्यः यः मुक्तः अस्ति सः शिवः तदर्थमेव अत्र श्लोकः मनः एव मनुष्याणां कारणं मन्दमोक्षयोः यः मुक्तः अस्ति तस्य विषयः नास्ति एकः विषयः अस्ति परमात्मा यः बद्धः अस्ति सः तु विषयै विषयै विषयेभ्यः अथवा विषयैः बद्धः अस्ति सः स्पष्टमस्ति वा आं भगिनि धन्यवादः समीचीनं तर्हि अत्र स्थनं कुर्मः अग्रिमसप्ताहे इतः अग्रे नूतन करपत्रं स्वीकुर्मः अस्तु अन्यप्रश्नः अत्र विस्मा धन्यवादः धन्यवादः